गर्गसंहिता खण्डं फैव् मधुराखण्डम् अध्यायं वन् श्रीनारद उवाच वसुदेवसुदं देवं कंसचाणूरमर्दनं देवगी परमानन्दं कृष्णं वन्दे जगद्गुरुं बहुलाश्व उवाच मधुरायाम् किं चरित्रम् कृतवान् भगवान्मुने कथं जखानकं साख्यमेदन्मे ब्रूहितत्वदः श्रीनारद उवाच अथैकदाहम् मधुराम् पुरीम् पराम् विलोकितम् चागतवान् नृपेश्वर कर्तुम् परं दैत्यवधोद्यमं हरेहे परस्य सा शान्मनसा प्रणोदितः सिंहासने च प्रहृदे पुरन्दरात्सितातपत्रे चलचारुचामरे स्थितं नृपं कंस मुरङ्गदुःसहं प्रावोचमेवं शृणुतत्प्रपूजितः यशोदाया सुदाजादा जादा या त्वद्धस्ताद्दिवम् गदा देवक्यां कृष्ण उत्पन्नो रोहिणीनन्दनो बलः स्वमित्रे नन्दराजे च न्यस्तौ पुत्रौ भवद्भयाद तवारि रामकृष्णौ द्वौ वसुदेवेन दैत्यराट पूदनाद्याह्यरिष्ठां दैत्याये ये त्वद्बलोत्कटाः याभ्यां कदा वनोद्देशे ते मृत्यूतौ स्मृतौ किल एवमुक्तो भोजपधिक्रोधा चलितविग्रहः जग्राहनिषितं खड्गं शौरिं हन्तुं सपातले मया निवारिदसोऽपि विस्तृतैर् निगडैर्दृढैः बद्ध्वा तम् भर्यया सार्धं कारागारे रुरोधः इत्युक्त्वा तं मयि गदे केशिनन्दैत्यपुङ्गवम् रामकृष्णवधार्थाय प्रेषयाम स दैत्यराट चाणूरादीन् महामात्रं द्वीपस्य कार्यभारकल्लोकान् प्राहेदम्भोजराड् बली कंस उवाच हे कूडके तो शलक हे चाणूरमहाबल रामकृष्णौ च मे मृत्यु दर्शितौ नारदेन तु भवद्भिरिह सम्प्राप्तौ हन्येदां मल्ललीलया मल्लभूमिं च संयुक्तां कुरुताश्युशुभाव द्वीपं कुबलयापीठं रङ्गद्वारिमदोत्कटं प्रस्ताप्यते न हन्तव्यौ महामात्रममाहितौ चतुर्दश्यां तु कर्तव्यो धनुरागः अमावास्यादिने लोकामल्लयुद्धं भवेदिह श्रीनारद उवाच इत्युक्त्वा स्वजनान् कंसो क्रूरमाहूय सत्वरं रहसि प्राहराजेन्द्रमन्त्रं मन्त्रिजनप्रियं कंस उवाच भो भो दानपदे मन्त्रिं शृणु परमं वजः गच्छ नन्दव्रजं प्राध कुरु कार्यं महामदे आसा ते तत्र मे शत्रु वसुदेवसुतौ किल दर्शितौ नारदेनाविदेवदेवर्षिणा भृश्यं सोपायनैर्गोपगणैर्नन्दराजादिभिः सह मधुरादर्शनमिषाद्रथेनानयमाचिरं दीपेन वा महामल्लैर्खादयिष्यामि तौ शिशु तत्पश्चान्नं दराजं च वसुदेवसहायकं वृषभानुवरं पश्चान्नवनन्दोपनन्दकान् पश्चाच्छौरिं हनिष्यामि देवकं तत्सहायकम् उग्रसेनं च पितरं वृद्धं राज्य समुत्सुकं तत्पश्याद्यादवान् सर्वान् हनिष्यामि न यदे देवगणः सर्वे जाता मन्त्रीन्महीतले शकुनिर्मे महामित्रो बली चद्रावदीपदीः भूदसंतापनो हृष्टो भृकशम्बर एव च कालनाभो महानाभो हरिष्मश्रुस्तथैव च यदे मित्राणि मे सन्धिमदर्थं प्राणदाबलाद श्वशुरोऽपि जरासन्धोद्विबीदो मे सखा स्मृतः बाणासुरश्च नरकोमय्येव कृतसौहृदः ये ते सर्वां महीं जित्वा बद्ध्वा देवान् सवासवान् गुहा दुर्गे कुबेरं द्रव्यनायकं त्रैलोक्यराज्यं तु सदा करिष्यन्ति न संशयकवीनां त्वं कविरिव गिरां गी गीष्पदिवद्भुवि एतत् कार्यम् च कर्तव्यम् त्वया दानपदे अक्रूर उवाच त्वया कृतो यदुपदे मनोरथमहार्णवः दैवेच्छयाम् भवदि गोष्पदम् तद्विनार्णवः कंस उवाच विसृज्य दैवम् कुरुदे दैवं समाश्रित्य हि निर्बलश्च कालात्मनोर्नित्यगयो प्रभावान्निराकुलस्तिष्ठतु कर्मयोगी श्रीनारद उवाच यवमुक्त्वा मन्त्रिवरम् समुद्धाय सभास्थलाद किञ्चित् प्रगुपिदखंस शनैरन्दपुरं ययौ इति श्रीगर्गसंहितायां मधुराखण्डे श्रीनारद बहुलाश्वसंवादे कंसमन्त्रो नाम प्रथमोऽध्यायः ओम् अध्यायं तु श्रीनारद उवाच अथ केशी महादैत्योभयरूपीमदोत्कटः एत्य वृन्दावनम् रम्यम् जगर्जखनवद्बली यस्य पादप्रदाडेन निपे दृढाः पुच्छखादेन गगने कंडं कंडं व्ययूर्खनाः तं वीक्ष्य दुःसहजवम् गोपगोपीगणाभृशम् भयादुरा मैथिलेन्द्रश्रीकृष्णं शरणं ययुः मा भैष्टेत्यभयम् दत्त्वा भगवान् व्रजिनार्दनः कटौ पीताम्बरम् बद्ध्वा बन्धुम् दैत्यम् प्रचक्रमे हरिम् पश्चिमपादाभ्याम् सन्तताडमहासुरः चालयन् पृथिवीम् राजन्नादयन् व्योममण्डलम् गृहीत्वा पादयोर्दैत्यम् भ्रामयित्वा भुजेनखे चिक्षेप योजनं कृष्णो वाधपद्ममिवोद्धृतं पुनरागतवंशो विक्रोधपूरितविग्रहः पुच्छेन श्रीहरिं देवं सन्तताडव्रजाङ्गणे पुच्छे गृहीत्वा तं कृष्णो भ्रामयित्वा भुजौ जसा योजनानां शतं गगने बलाद आकाशात्पदिदसोऽपि किञ्चिद् व्यायाकुल मानसः समुद्धाय पुनर्दैत्यो जगर्जघनवद्बली सदा विधुन्वन् रोमाणि बालं खे चालयन्मुहुः मही विदारयन् पादैरुत्पपादहरेः पुरः तदाडमुष्टिना तं वै भगवान् मधुसूदनः तस्य मुष्टिप्रहारेण मूर्च्छितो कडिकाद्वयम् मस्तकेन गलोद्देशे समुद्धृत्य हरिंहयः भूमण्डलादुत्पपादगगने लक्षयोजनम् तयोर्युद्धमभूत्घोरम् गगने प्राहरद्वयम् पदैर्दद्भिः सडाभिश्च पुच्छतीक्ष्णखुरैर्नृप गृहीत्वा तम् हरिर्दोर्भ्याम् भ्रामयित्वा त्वितस्ततः आकाशात्पादयामास कमण्डलुमिवार्भकः भुजम् प्रवेशयामास तन्मुखे भगवान् हरिः तस्योदरे गदो बाहुववृते तदा तु लेण्डं कृतवान् रुद्धवायुर्महासुरः कण्डीभूतोदरः सद्यो ममार हयरूपदृक देहाद्विनिर्गतसद्यो मुकुडीकुण्डलान्विदः दिव्यरूपधरं कृष्णं प्राञ्जलिप्रणनामः कुमुद उवाच शक्रस्यानुचरोहं वै कुमुदो नाम माधव तेजस्वीरूपवान् वीरो जिष्णुश्चक्रभ्रमिम् दधन् वृत्रा सुरवधे पूर्वम् ब्रह्महत्या प्रशान्तये यज्ञम् चकार नाकेशो वाजिमेधम् क्रदूतमम् अश्वमेधहयम् शुभ्रम् श्यामकर्णम् मनोजवम् तमारुरुक्षुर्दुष्टोऽहम् चोरयित्वा कलम् गतः तदो मरुद्गणैर्णीदम् पाशबद्धम् महाफलम् शशाप मां बलाराधित्वं रक्षो भुवदुर्मदे हयाकृतिस्ते सम्भूया भूमौ मन्वन्तरद्वयं सद्यस्तोस्पर्शनात् सद्यस्तत्स्पर्शनात् प्रभो किङ्करम् कुरु माम् देवत्वतङ्घ्रौल्लघ्नमानः सन् नमस्तुभ्यम् भगवदे सर्वलोकैकसाक्षिणे श्रीनारद उवाच प्रदक्षिणीकृत्य हरिम् परेश्वरम् विमानमारुह्य महोज्वलम् परम् वैकुण्ठलोकम् कुमुदो ययौ त्वरम् विराजयन् मैथिलमण्डलम् दिशाम् श्री इति श्री नारद श्रीनारद बहुलाश्वसंवादे केशिवधो नामद्वितीयोऽध्यायः ओ अध्यायम् त्रि श्रीनारद उवाच अक्रूरोरथमारुह्य कर्तुम् कार्यम् नृपस्य वै प्रभर्षितो मैथिलेन्द्रप्रययौ नन्दगोकुलम् परम्भक्तिम् ह्युपगद्धश्रीकृष्णे पुरुषोत्तमे एवम् विचारयन् बुद्ध्या पथि गच्छन् अक्रूर उवाच किम् भारदेवा सुकृदम् कृतम् मया निष्कारणम् दानमलम् कृदुत्तमम् वा द्विजसेवनम् शुभम् येनाद्य द्रक्ष्यामि हरिं परेश्वरं तपःसु तप्तं किमलं पुराकृतं सत्सेवनं भक्तियुधमया कृतम् येनैव मे दर्शनमद्य दुर्लभं श्रीकृष्णदेवस्य पुरो भविष्यति तेषां भवो वै सफलो महीदले। यन्नेत्रगामी भगवान् सुरेश्वरः कृत्वा तत्तद्दर्शनमद्य दुर्लभम् सद्यकृतार्थो भवितास्मि श्री श्रीनारद उवाच युद्धं संचिन्तयन् कृष्णं पश्यन् शकुनमुत्तमम् संध्यायां गोकुलं प्राप्तो रथस्थो गान्धिनीसुदः कृष्णपादाब्जचिह्नानि यवाङ्गुषयुतानि च तद्रागयुक्परागाणि रजांसि स ददर्शकौ तद्दर्श नौत्सुक्यभक्ति भावानन्दसमाकुलभरद्धासमुत्पत्यतेषु लूढं चाश्रुमुमोचसः येषाम् श्रीकृष्णदेवस्य भक्तिस्याधृतिमैथिल तेषामाब्रह्मणः सर्वम् तृणवत् जगदः सुखम् रसारूढस्तदो क्रूरः क्षणानन्दपुरम् गतः कोष्येषु सबलम् कृष्णमागच्छन्तम् ददर्शः देवौ पुराणौ पुरुषौ परेशौ पद्मेक्षणौ श्यामलगौरवर्णौ यथेन्द्रनीलध्वजवज्रशैलौ समाश्रितौ तौ पधिरामकृष्णौ बालार्कमौलिवसनं तडिद्विधी स्वरथागदोऽधो तयोर्नदो भक्तियुधप्रपाद तदाननं बाष्पकलाघुलक्षणं रोमाञ्चितं वीक्ष्य हरिः परेश्वरः दोर्भ्यां समुद्धाप्य घृणातुरोश्रु मुमोजभक्तं परिलभ्य माधवः एवं मिलित्वा सबलश्च हरिः सद्यसमानीयवरासनं ददौ निवेद्यकां चादिथये सुभोजनं रसावृतं प्रेमयुधो ह्युपाहरद तमाह नन्दपरिरभ्य दोर्भ्यामहो कथं जीवसिकं कं सराज्ये गतत्रपो यो निजगानबालान् स्वसुस्कथ स्वसुकथं मोही गृहम् गते नन्दवरे हरिस्थम् पप्रच्छ स्वपित्रोः तथा यदूनां किल बान्धवान् कंसस्य सर्वाम् विपरीदबुद्धिम् अक्रूर उवाच परश्वोहनि हे देवकन्तुम् शौरिम् समुद्यतः गड्गपाणिर्भोजराजो नारदेन निवारितः दुःखिता बान्धवा सर्वे यादव भयविह्वलाः सकुडुम्पाकं सभयाद् भूमन्देशान्तरं गदाख अद्यैव यादवान् हन्तुम् देवां समुद्यतः अन्यत् किमपि कौ कर्तुमिच्छ दे दैत्यराज् बली तस्मात् भवद्भ्याम् गन्तव्यम् कुशलं कर्तुमव्ययं भवं तौ हि विना कार्यं प्रभो श्रीनारद उवाच अथ तस्य वच श्रुत्वा सबलो भगवान् हरिः नन्दराजमदेनाहगोपान् कार्यकरानिदं श्रीभगवानुवाच नन्दराजोऽपि सबलो वृद्धैर्गोपगणैरहं नन्दा नवोपनन्दाश्च तथा षड्वृषभानवः मधुरां तु गमिष्यन्ति सर्वे प्रातः समुद्धिताः सर्वे दु गोरसं तस्माद्दधिदुग्धघृताधिकम् गृहीत्वै कत्र कर्तव्यम् सोपायनमधः परं रथांश्च शकढैः सार्धं समर्थान् कुरुताशु वै श्रीनारद उवाज इति श्रुत्वा कार्यकरा गोपा सर्वे गृहे गृहे शृण्वन्दीनां गोपिकानामूजुः सर्वं यथोदितम् तत्स्रुत्वोद्विग्नहृदया गोप्यो विरहविह्वलाः परस्परं वाक्यमूजुः सर्वास्ता गृहे गृहे प्रस्थानस्य च वार्तेयं श्रीकृष्णस्य महात्मनः वृषभानु वरस्यापि गृहे प्राप्ता नृपेश्वर गमिष्यदो भर्तुरतीव दुःखिताः श्रुत्वाथवार्तां सदसिह्यकस्माद् सम्प्रापमूर्च्छां वृषभानुनन्दिनी रम्भेव भूमौ पतिता मरुद्धता काश्चित् परिम्लानमुखश्रियो प्रकङ्कणी प्रकङ्कणीभूतकराङ्गुलीयकाः सव्यश्रधद्भूषणकेशबन्धनाः चित्रार्पितारम्भ इवावत स्थिरे श्रीकृष्णगोविन्दहरे मुरारे काश्चिद्वदन्त्य स्वगृहे दिविह्वलाः विसृज्यकर्माणि गृहस्य सर्वदो योगी वचानन्दगदा नृवेश्वर काश्चित् समर्थास्तु परस्परं वचः समेत्य राजन् युगपत्सखीजनम् ऊजुस्खलद्गद्गदकण्ठवाच स्वतस्रवद्भाष्पकलाव सदृश गोप्य ऊचुः अहो दिनर्भो हि जनस्य चित्रम् परं चरित्रम् गदितुं न योग्यम् मुखेन चान्यं हृदि भाव्यमन्यद्देवो न जानाति कुतो मनुष्यः रासेऽपि यद्यद् गदितं तु तत्तद्विहाय गन्तुम् समवस्थितोऽयं गदे पुरीम् प्राण पदावहोऽस्मिन् किं किं न कष्टं वदनो भविष्यत् श्री इति श्रीगर्गसंहितायाम् मधुराखण्डे श्रीनारदबहुलाश्वसंवादे अक्रूरागमनम् श्री नाम तृतीयोऽध्यायः ओम् अध्यायम् फोर् श्रीनारद उवाच राजन्नेवम् वदन्तीनाम् गोपीनाम् विरहम् परम् विज्ञाय भगवान् देवशीघ्रम् तासाम् गृहाण्ययौ यावन्त्यो योषितो राजं स्तावद्रूपधरोहरिः स्वयं सम्बोधयाम स वाग्भिसर्वा पृथक् पृथक् श्रीराधा मन्दिरं गत्वा दृष्ट्वा राधां च मूर्छितां रहस्थितं सखी सङ्खे ननादमुरलीं गलं श्रुत्वा वंशीध्वनिं राधा सहसोद्धाय चादुरा नेत्र दद्रुष्ये ददृश्ये श्रीगोविन्दं समागतं पत्मिनीव गदानन्दं पत्मिनी पत्मिनी पदीं वीक्ष्योद्धायागदा तस्मै सादरेणासनं ददौ अश्रुपूर्णमुखीं दीनां राधां कमललोचनाम् शौचन्तीं भगवानाहमेकगम्भीरया गिरा श्रीभगवानुवाच विमनास्त्वं कथं भद्रे मा शोचं कुरुराधिके अथवा गन्तुकामं मां श्रुत्वा शिविरहातुरा भुवो बारावताराय कंसादीनां वथाय च ब्रह्मणा प्रार्थितः साक्षात् जादोऽहं वै त्वया सह मधुरां हि गमिष्यामि हरिष्यामि भुवोभरम् शीघ्रमत्रा गमिष्यामि करिष्यामि शुभं तव श्रीनारद उवाच युत्युक्तवन्दं जगदीश्वरं हरिं राधापदिं प्राह वियोगविह्वला दावाग्निना दावलतेव मूर्झिता सुखम् परो मां चिद धावसंवृता श्रीराधोवाचा भुवोभरं हर्तुमलम् पुरीं व्रजकृतं परमेषपदं शृणुत्वदः गदे त्वयि प्राणपदे च विग्रहम् कदाचिदत्रैव न धारयाम्यहम् शपदं धमे त्वं शपथं प्रददामि वा पदम् प्राणो धरे प्राणोधरे गन्तुमदीव विहुलः कर्पूरधूले कणवद्गमिष्यति श्रीभगवानुवाच वचनं वै स्वनिगमं दूरीकर्तुं क्षमोऽस्म्यहं भक्तानां वचनं राधे दूरीकर्तुं न च क्षमः श्रीरामशापात् पूर्वस्माद् गोलोके कलहान् मम शतवर्षं ते वियोगो भविष्यति न संशयः स्मरराधिके मास्सं दर्शनं मे भविष्यति श्रीराधोवाच मा वियोगे मे दातुं स्वं दर्शनं हरे चेन्नागमिष्यसि तदा सून्दुःखात् सन्त्यजाम्यहम् लोकाभिरामजनभूषण विश्वदीपकन्दर्पमोहन जगद्वृजिनार्तिहारिन् आनन्दकन्दयदुनन्दननन्दसूनो अद्यागमस्य शपथम् कुरु मे पुरस्त्वं श्रीभगवानुवाच रम्भोरुमा सम्प्रतिदेवि योगे चेन्नागमिष्ये शपथं निःसंशयम् निष्कपडं वचस्त्वमवेहिराधे कथिदं मया यो मित्रतां निष्कपडं करोति निष्कारणो धन्यतमस्य एव विधाय मैत्रीम् कपटम् विदध्यात्तम् लम्पडं हेदुपडम् नडम् धिक कर्मेन्द्रियाणीह यथा सुखं यद् नाङ्नजानन्ति हि नैरपेक्षं गूढं परं निर्गुणलक्षणं तद् संत समदर्शिनो ये दान्ता महान्ध किल ते तेनैरपेक्ष्यं परमं सुखं मे ज्ञानेन्द्रियादीनि यथारसादीन् सर्वं हि भावं मनस परस्परं न ह्येकदोभामिनि जायते तदः प्रेमैव कर्तव्यमदो मयि स्वतः प्रेम्णा समानम् भुवि नास्ति किञ्चित् यथा हि भाण्डीरवडे मनोरथो बभुवराधेहि तथा भविष्यति अहैतुकम् प्रेम च सद्भिराश्रितं तच्चापि विदुः ये राधिकायाम् त्वयि न कुर्वन्ति हि दुग्धशौक्ल्यवद त एव मे ब्रह्मपदम् प्रयान्ति तद कैदुःखासूर्जितभक्तिलक्षणाः ये राधिकायां त्वयि केशवे मयि पश्यन्ति भेदङ्गुधियो नरा भुवि ते कालसूत्रम् प्रपतन्ति दुःखिदा रम्भोरु किल चन्द्रभास्करौ श्रीनारद उवाच एवमाश्वास्यतां राधां सर्वं गोपीगणं तथा आययौ नन्दभवनं भगवान् नयकोविदः अथ सूर्योदये जादे नन्दाभ्याशकडये बलिं नीत्वा रथान् समारुह्य सर्वे श्रीमधुरां ययुः आरुह्य रामकृष्णाभ्यां स्वं रथं गान्धिनीसुध प्रयाणमकरोद्राजन्मधुरां द्रष्टुमुद्यतः कौडिस् कौडिशकोडिशो गोप्यो मार्गे मार्गे समास्थिताः पश्यन्त्यस्तन्निर्गमनं क्रोधाढ्यामोहविक्वलाः क्रूरक्रूरेदि चाक्रूरं वदन्त्यपरिषं वजः रुरुधु सर्वतोयानं यथार्कं शरथम् नाः अक्रूरस्य रथम् राजन् निजघ्नोर्यष्टिभिर्भृश्यम् अश्वांस्तथा सारथिम् च भगवद्विरहातुराः अश्वास्तत्र समुत्पेदुस्ताडितास्त इदस्ततः गोप्ये द्व्यङ्कुलिखादेन सारथि पदितो रथात विहाय लज्जां लोकस्य समाकृष्य रथाद्बलाद रथाद्बलाद कङ्कणैस्तडुरक्रूरम् पश्यधो कृष्णरामयोः गोपीयूथबलं दृष्ट्वा सबलो भगवान् हरिः गोपी सम्बोधयामा सरक्षित्वा गान्धिनी सुधं सन्ध्यायामागमिष्यामि मा, मा शोकम् कुरुताङ्गनाः पश्य तश्चास्य मद्धास्यम् मा कुर्वन्तु व्रजौतसः इत्येवमुक् शरथसमागतो क्रूरेण कृष्णो बलदेवसंयुधः तुरङ्गमैर्वेगमयैर्मनोहरैः ययौ पुरीं यादवबृन्दमण्डिताम् यावद्रदके दुरुदाश्वरेणुः आलक्ष्यदे तावदतीवमोहाद स्थिता ह्य भूवन्पथि चित्रवत्ताः स्मृत्वा हरेर्वाक्यमुदा गदाशाः श्रीगर्गसंहितायां मधुराखण्डे श्रीनारदबहुलाश्व संवादे श्रीमधुराप्रयाणम् नाम चतुर्धोऽध्यायः ओ अध्यायम् फैव् श्रीनारद उवाच हरिरक्रूरामाभ्यम् मधुरोपवनम् गतः यमुना निकडम् स्थित्वा वारिपीत्वा रथम् ययौ अक्रोरस्तावनुज्ञाप्यश्नातुं श्रीयमुनां गदः नित्यनैमित्तिकं कर्तुं विवेश विमले जले जले चागाधगम्भीरे महावर्तसमाकुले ददर्श रामकृष्णौ तौ वदं तौ गान्धिनीसुदः विस्मदस्तौ रथे पश्यत् पुनर्वारिस्थितौ नृप ददर्श तत्र कुण्डली भूतमास्थितम् तस्योत्सङ्गे महालोकं गोलोकं लोकवन्दितं गोवर्धनाद्रिं यमुना वृन्दारण्यं असङ्ख्य कोटिमार्ताण्डज्योतिषम् मण्डलम् प्रभुम् परिपूर्णतमम् साक्षाच्छ्रीकृष्णम् पुरुषोत्तमम् कोटिमन्मथलावण्यम् रासमण्डलमध्यगम् राधया सहितम् देवम् तत्र कुरोदर्शः ज्ञात्वा कृष्णम् परम् ब्रह्म नत्वा नत्वा पुनः पुनः कृताञ्जलिपुडो क्रूरस्तुतिम् चक्रेधिहर्षिदः अक्रूर उवाच नम श्रीकृष्णचन्द्राय परिपूर्णतमाय च असङ्ख्याण्डाधिपदये गोलोकपदये नमः श्रीराधापदये तुव्यम्ब्रजधीशाय ते नमः नमः श्रीनन्दपुत्राय यस्योदानन्दनाय च देवकीसुधगोविन्दवासुदेवजगत्पदे यदुत्तमजगन्नाथपहि मां पुरुषोत्तम वाणी सदादे गुणवर्णने स्यात् कर्णौपधायां मम दश्च कर्मणि मनःसदा श्रीनारद उपचारेवं संस्तुवदस्तस्य पश्यतो विस्मितस्य तत्रै तत्रैवान्दर्धते कृष्णसलोको भगवान् प्रभुः न त्वां तं च तदा क्रूरकृत्वा नैमित्तिकं विधिं ज्ञात्वा कृष्णं परब्रह्म ज्ञात्वा कृष्णं परं ब्रह्म विस्मितो रथमायययौ दिनात्यय रामकृष्णा वानयद्वान्दिनीसुतः रथेन वायुवेगेन स्निग्धगम्भीरनादिना पुरस्यो भवने तत्र वीक्ष्य नन्दं यदूत्तमः अक्रूरं प्राह विखस्सन्मेघगम्भीरया गिरा श्रीभगवानुवाच मधुरायां हि गन्तव्यं भवदा स्वरथेन वै गोपालै सहित पश्चादागमिष्यामि मानद अक्रूर उवाच देवदेवजगन्नाथगोविन्दपुरुषोत्तम सहस्र सहाग्रज सगोपालो गच मे मन्दिरं प्रभो पादारविन्दरजसा पवित्रीकुरु मद्गृहस्थं त्वां विना न गमिष्यामि मन्दिरं स्वं जगत्पदे श्रीभगवानुवाच गृहं तवा गमिष्यामि हत्वा वै यादवाहिदं सबलो बान्धवै सार्धं करिष्यामि तव प्रियं श्रीनारद उवाच अधा तत्र स्थिते कृष्णे सोक्रूरो मधुरां गतः निवेद्य चेतं कंसाय ततः स्वभवनं ययौ अथ पराक्ष्णे सबलं गोविन्दं बालकैपुरीं द्रष्टुमभ्युतिदं वीक्ष्य नन्दो वाक्यमधा ब्रवीत आर्जवेनपुरीं वीक्ष्या गन्तव्यं भवदा विद्धि चैना कंसराज्ये महाभये तथास्तु चोक्त्वा भगवान् वृद्धैर्नन्दप्रणोदितैः गोपालैर्बालकै सार्धं सबलो सा गतवान् पुरीं प्रासादैर्गगनस्पर्शैर्हेमरत्नखजिद्गृहैः शोभितां दुर्गसंयुक्तां देवधानीमिव स्थिताम् लिन्दीं रत्नसोपानैश्चलदूर्मिकुतूहलैः अलकामिव शोभाढ्या दिव्यनारीनरैर्युदाम् प्रेक्षन् श्रीमधुरां कृष्णो धनिनां मन्दिराणि च पश्यन् गोपालकैः सार्धं राजमार्गं विवेशः श्रुत्वा गदं तं वसुदेवनन्दनं बहुश्रुदा मधुरापुराङ्गनाः त्यक्त्वा कर्माणि विसृज्य ता शिष्यून् द्रष्टुं व्यथा वन्नु दधिं यथापगाः काश्चित्तु हर्म्यात् किल जालदेशात् कुड्यात्तु काश्चित् पटदो गवाक्षाद विनिर्गताद्वारकपाठदेशात् तच्चत्वरात्तं ददृशु पुरन्ध्र्यः एकं चलत् किमग्रगानां तुमनां सिहर्दुम् पश्चात्कृतं मौलितले दधानं किं हरणं द्वितीयम् पीताम्बरार्थम् बलिनं स्फुरत्कडा वर्धं तदं से जलदे यथा तडित हृदि वैजयन्तीं स्रजं दधानं वसुदेवनन्दनं विलोक्य सर्वमुः पुरस्त्रियो पाटिन नवीनकुण्डलम् बालार्कहेमाङ्ग बालार्क हेमाङ्गद बाहुमण्डलं राजन्न सङ्ख्याण्डपदिं परात्परं पुरन्ध्रिय ऊचुः अहो वृन्दावनं रम्यं यत्र सन्निहितो ह्ययम् धन्यागोपगण सर्वे पश्यन्त्येनं मनोहरम् धन्या गोपरमण्यस्तास्ताभिः किम् सुहृदम् कृतम् पिबन्दिया रासरङ्गे मुहुश्चास्याधरामृतम् श्रीनारद उवाच राजमार्गे रङ्गकारम् रचकम् यातमुन्मदम् रचकम् यान्तमुन्मदम् गोपालानुमदेनैव प्राहतम् मधुसूदनः देहि नो मित्रवासांसिरुचिराणि महामदे धातु स्तेहि परं श्रेयो भविष्यदिनसंशयः प्रज्वलन् कृष्णवाक्येन धृतेनाग्निर्यथा भृशम् कंसभृत्यो महादुष्टप्राहेदम्पथि माधवम् रचक उवाच ईदृशान्येव वस्त्राण्यपि दृभिर्वक्तितामहः धारितानि किमुद्वृत्तास्तेदु कौपीनधारकाः या दाशिवन्या नगरात् सर्वे वै जीविते चया कारागारे कारयामि युष्मान्वस्त्रहरानकम् का। श्रीनारद उवाच एवं प्रवदतस्तस्य रजकस्य यदुत्तमः जहारमस्तकम् सद्य कराग्रेणैव तज्योति नश्या तज्योतिश्रीख नश्यामे लीनं जातं विदेहराड सद्यस्तदनुग्रह सर्वे तस्यस्तदनुग सर्वे वासकोशान् विसृज्य वै दुद्रुगो सर्वतो राजन् शरत्काले यथा घनाः गृहीत्वात्मप्रिये वस्त्रे स्थितयो रामकृष्णयोः जगृभूर्गोपबालस्ते राजमार्गजना अपि तद्धारणविधो बालवासांसि रुचिराणि च अस्तव्यक्तं परिदधु श्रीकृष्णस्य प्रपश्यतः वीक्ष्य तौ वायकच्चित् श्रीकृष्णबलदेवयोः विचित्रवर्णायैर् वासोभिर्दिव्यम् वेषम् चकारः तथान्येषाम् शिशूनाम् च यथा योग्यम् विधाय राजन परमया भक्रिया पुनः कृष्णम् ददर्शः प्रसन्नो भगवां तस्मै प्रादासारूप्यमात्मनः बलम् श्रियम् तथैश्वर्यम् बलदेवो ददौ पुनः इति श्रीगर्गसंहिताय मधुराखण्डे श्रीनारदबहुलाश्वसंवादे मधुरायां श्रीकृष्णप्रवेशो नाम पञ्चमोऽध्यायः ओम् अध्यायम् सिक्स् श्रीनारद उवाच अथ गोपालकैः सार्धं श्रीकृष्णोनन्दनन्दनः गृहं जगामसबलसुधाम्नो दाममालिनः पृष्ट्वा तौस समुद्धायनमस्कृत्य नमस्कृत्य पुष्पसिंहासने स्थाप्य प्राहगद्गदया गिरा सुदामोवाच धन्यं कुलं मे भवनं च जन्म त्वय्या गकुलानि सप्त माधुपिदुःसप्त प्रियया वैकुण्ठलोकं गदवन्दिमन्ये भूपारमाकर्तुमलं यदोकुले जाधयुवं पूर्णतमौ परेश्वरौ नमो युवाभ्यां मम दीनदीनं गृहं गदाभ्यां जगदीश्वरौ परौ श्रीनारद उवाच इत्युक्त्वा पुष्परचनालङ्कारान्मधुपध्वनि निवेद्य मकरन्तांश्च मालाकारो ननामः धृत्वा तत्पुष्पनि च यं सबलो भगवान् हरिः दत्त्वा गोपेभ्य आरातं प्राह प्रहसितानः गरीयसी मत्पदा सदा तव मद्भक्तानां तु सङ्गस्यान् मत्स्वरूपमिहैव बलदेवो ददौ तस्मै श्रियम् चानयवर्धिनीम् उद्धाय तौ ततो राजन्नन्यां वीधीम् यान्त्रीं याम् पत्मनेत्रां स्त्रियम् पद्मनेत्राम् पाडीरालेपभाजनम् युवदीं युवतीम् कुब्जाम् पदिपप्रच्छमाधवः श्रीभगवानुवाजा का प्रिया सुभ्रु कस्यार्थं चन्दनं त्विदं देह्यावयोर्यनदवजिरं श्रेयो भविष्यति सैरन्ध्र्युवाच दास्यास्मि सुन्दरवर कुब्जा नाम महामदे मन्दस्तोद्धं च पाडीरं जातं भोजपदे प्रियम् अद्यापि अध्यापिकं सद्दास्य अस्मि साम्प्रदन्तवजाग्रदः अस्ति शुण्डादण्डसमे भुजदण्डेऽस्ति मे मनाः युवां विना कोन्यतमोऽनुलेपम् कर्तुमर्हति युवयोस्तु समं रूपं त्रैलोक्येन हि विद्यते श्रीनारद उवाच उभाभ्यां सा ददौ सान्द्रम् हर्षिदाह्यनुलेपनम् अथ तावङ्करागेण रामकृष्णौ विरे जुः जगृहुश्चन्दनं दिव्यम् किञ्चित् किञ्चिद्व्रजार्भकः त्रिवक्रामतताम् कृष्णो ऋज्वीम् कर्तुम् मनो दधेम् आक्रम्य पद्भ्याम् प्रपदेङ्गुलीद्वयं प्रोत्तानहस्तेन विभुः परेश्वरः प्रगृह्य नृणाम् शुबुगे प्रपश्यदाम्ब्रान्तनुं ता मुदनीनमद्धरिः तदैव सा यष्टिसमानविग्रहा दीत्या जरम्भां क्षिपदीवरूपिणी भूत्वा गृहीत्वा भकरीं तु वाससि शुचिस्मिता जातमनोजविह्वला सैरन्ध्रिवाच गच्छा सुखे सुन्दरवर्यमद्गृहम् त्यक्तुम् भवन्तम् किल नोत्सखे सन् प्रसीद सर्वज्ञरसज्ञमानदत्वया भृश्यम् पुरोन् महितं मनो मम श्रीनारद उवाज तथैव गोपा जह सु परस्परमहो किमेतत् करताडनिस्वनैः प्रकश्य रामस्य हरिप्रपश्यतस्तद्याच्यमानो ह्यवदत्परं वचस श्रीभगवानुवाच अगोदि धन्यामधुरा भुरीयम् वसन्ति सौम्याः यज्ञादपन्थान् स्वगृहम् नयन्ति दृष्ट्वा पुरीम् श्रीनारद उवाच एव मोक्तुवोत्तरीयान्दं समाकृष्य गिरार्द्रया राजमार्गं व्रजन् कृष्णो वैश्यानाढ्यान्ददर्शभ पुष्पताम्बूल गन्धाढ्यैफलैर्दुग्धबलैर्हरिं सम्पूज्य स्वासने स्थाप्य नेमुरग्र्य धियो विषभ वैश्याऊजुः भवेच्चेदत्र ते राज्यं तावकान् सरदात्तदा वयं तव प्रजादेवराज्ये प्राप्ते न कस्मरेद श्रीनारद उवाच पप्रच्च सुस्मितो वैश्यान् कोदण्डस्थानमच्युतः नदे ते तमोचुस्सुधियः भंग शंगया। तद्रूपगुणमाधुर्यमोहिता ये च माधुराः कुमारः पश्यैः धनुरेत्यूजुस्तद्दिदृक्षवः तैर्दृष्टेन पदा कृष्णप्रविष्टो धनुषस्थलम् पुरुषै पञ्चसाहस्रै नेतुं योग्यम् बृहद्भरम् अष्टधातुमयं क्लिष्टं लक्षभारसमं परं। चतुर्दश्यां पौरजनैरार्चितं यज्ञमण्डपे भार्गवेण यदुराजायमाधवः। दत्तं यदुराजाय ददर्शकुण्डलीभूतं साक्षामिव स्थितं वार्यमाणो निभिकृष्णप्रहस्य धनुराददे पश्यताम् तत्र पौराणां सज्जं कृत्वा दलीलया आकृष्य कर्मपर्यन्तं दो दण्डाभ्यां सरिर्धनुः बभञ्जमभ्यतो राजन्निक्षुदण्डं गजो यथा भज्यमानस्य धनुषष्टकारो धनु भज्यमानस्य धनुषष्टङ्कारो भू तडित्स्वनः ननादतेन ब्रह्माण्डं सप्त लोकाैर्बिलैः सह विचेलु दिग्गजास्तारा राजद्भूखण्डमण्डलं तथैव बधरीभूता पृथिव्यां जनमण्डली कंसस्य हृदयं शब्दो विदद्धारखडीद्वयं तत्प्रक्षिणप्रभुपिदा उद्धिदा आददायिनः गृहीतुकाम श्रीकृष्णं श्री अध तानागतान् वीक्ष्य सशस्त्रान् बलके शवौ को दण्डशकले नीत्वा जग्नदुर्दुर्मदान् भृश्यं शकलादिप्रभारेण केजिद्वीरास्तु मूर्च्छिताः भिन्नपादा भिन्ननका के जिन्नि के वीरा पञ्चसहस्राणि निपेदुर्भूमिमण्डले विचेलुर्माधुरा सर्वे दुद्रुगुस्तद्दिदृक्षवः पुर्यां कोलाहले जादेन्द्रनां जातं महद्भयं भोजराजस्वच्छत्रमकस्मान्निपत्वातः गोपालै सबलकृष्णो धावञ्चापस्थलान् नृव आय यौ नन्दनिगडे सन्ध्या काले दिभिदवद निरीक्ष्य गोविन्द सुरूपमद्भुतं विमोहिदा वै मधुरापुराङ्गनाः विस्रस्तवास परस्परं प्राहुरिदं सखीजनं पुरं ध्रुय ऊचूः कन्दर्पकोड्यद्युदिमाकरं स्वैरं चरन् वै मधुरापुरे हरिः निरीक्ष्यते याभिरदिवसाक्षादङ्गेषु सर्वेष्वपि नः समाविशद कुशला रुजुः क्रूरात्रि यः किं न हि सन्धिपत्तने निरीक्ष्यते याभिरनङ्गमोहनः अङ्गेषु सर्वेषु अपि सर्वसुन्दरो नास्माभिरानन्दमयो निरीक्ष्यते कस्यैकदेशे मधुरत्वमीक्ष्यदे तत्रास्ति नेत्रं प्रपदत्पतङ्गवद यस्त्वेव सर्वाङ्गमनोहरः सखी स एव नेत्रेण कथीं समीक्ष्यदे अङ्गे ह्यङ्गे सुन्दरे नन्दसूनोः प्राप्तं प्राप्तं यत्र यत्राभिनेत्रं तस्मात्तस्मान्नाम वल्लब्धसौख्यं लावण्याब्धौ मग्नवल्लग्नचित्तम् श्रीनारद उवाजा दृष्ट्वा दिनेयं व्रजराजनन्दनं स्वप्नेऽपि तत् ददृश्युपुरस्त्रियः गोप्यकथं तं मधुरं न सस्मरोर्याभिकृद मैथिलरासमण्डलम् इति श्रीगर्गसंहितायां मधुराखण्डे श्रीनारदबहुलाश्वसंवादे श्रीमधुरादर्शनं नाम षष्ठोऽध्यायः ओम् अध्यायम् सवन् श्रीनारद उवाच रचकस्य शिरच्छेदङ्गम् सो वैरक्षिणाम् वधम् धनुर्भङ्गम् तदश्रुत्वा परं त्रासमुपागमद तत्क्षणादुर्निमित्तानि वामाङ्गस्फुरणानि च प्रपश्यन्नङ्गभङ्गानि न निद्राम् प्रापदैत्यराड स्वप्ने प्रेदैः समयुक्तस्तैलाभ्यक्तो दिगम्बरः जपा श्रमहिषारूढो दक्षिणांशां जगामसः प्रातःकाले समुदाय कार्यभारकरान् जनान् आहूय कारयामासमल्लक्रीडामहोत्सवम् विशालाजिरसंयुक्ते हेमस्तम्भसमन्विदे सभामण्डपदेशाग्रे रङ्गभूमिर्बभूवः वितानायर्हेमसङ्काशैर्मुक्तादाम विलम्बिभिः सोपानायिर्हेम मञ्चैश्च रङ्गभूमिर्बभौ नृव राजमञ्जेरत्नमये मकरन्दार्चिदेशुभे शक्रसिंहासनं तत्र सोपबर्षणमण्डलम् आदपत्रेण दिव्येन चन्द्रमण्डलचारुणा हंसाभैर्व्यजनैर्युक्तमरैर्वज्रमुष्टिभिः दश हस्तोच्छ्रितं शश्वद्विश्वकर्मविनिर्मितं तदारुह्य बभौ कंसोद्रिशृङ्गे मृगराडिव गायक प्रजभुस्तत्र न नृदो वारयोषिधः ने दुर्मृदङ्गपडः तालभैर्यानगादयः राजानो मण्डलेशाश्च पौरा जानपदा नृभ ददृशुर्मलयुद्धं दे मञ्जे मञ्जे ्यायाम मुद्गरैर्युक्ता युयुधुस्ते परस्परम् नन्दराजादयोगोपाकम् साहूदानदाननाः दत्वा बलिम् परम् तस्मा एकस्मिन् मञ्च आश्रिताः बाणासुरजरासन्तनरकाणाम् पुरा नृप अन्येषाम् शम्बरादीनाम् सकाशात् भूभुजाम् तथा पलयश्चाययू राजन् यदु राजाय तत्र वै अधतौ रमकृष्णौ दुआव। माया बालकविग्रहौ मल्लीलादर्शनार्थं ययतु ययतु रङ्गमण्डपं गोमूत्रचयत् सिन्धुरकस्तूरी पत्रभृन्मुखं श्रवन् मदमहामतं रत्नकुण्डलमण्डितं गजं कुवलया पीडं महामात्रं वीक्ष्य कृष्णो महामात्रम् प्रागम्भीरया गिरा आकर्षयाङ्गनागेन्द्रमार्गं गुरु ममेच्छया सनागं भूमिमण्डले महामात्रस्तदा क्रुद्ध गजम् चीत्कारमुत्कटम् दिक्षु कुर्वन्तं नन्दसूनवे गृहीत्वा तम् हरिम् सद्य शुण्डा तत्वादेशु नागराड उज्जहारतस्तस्मान् निर्गतोभारभृद्धरीः तत्पादेषु विलीनो भूत् प्रभ्रन् सन्निधस्तदः वृक्षेषु च यथा हरिः करे जग्राहतं नागः शुण्डादण्डेन चङ्घ्रिषु निष्पीड्य शुण्डां हस्ताभ्यां हरि पश्चाद्विनिर्गतः तिर्यभूतश्च तं दुद्रावमाधवः तमन्वधावन्नागेन्द्रो तदा जादे हरिस्तस्मादिदो यय पुच्छे गृहीत्वा तं नागं बलदेवो महाबलः चकर्षभुजदण्डाभ्यां भणिनं गरुडो यदा प्रहसन् भगवान् कृष्णो गृहीत्वा तं करे बलाद्य चकर्षभुजदण्डाभ्यां कूपरज्जुं यथा नरः द्वयो राकर्षणान्नागो विह्वलो भून् नृपेश्वर महामात्रास्तदा सप्तरुरुहुस्तं गजं बलाद निदा कृष्णं कन्धुं शतत्रयम् अङ्गुशास्पालनात् क्रुद्धं मत्तेभं श्रीकृष्णो भगवान् साक्षात् बलदेवस्य पश्यदः शुण्डा दण्डो सङ्गृहीत्वा भ्रमयित्वा त्वितस्तदः पादयामास भूपृष्टे कमण्डलुमिवाद्भगः दूरे प्रपतितस्तस्य महामात्रा इदस्तदः सदां प्रपश्यताम् नागसद्यो वैनिधनम् गतः तज्यो दिशि क्रनश्यामे दीनम् जातं विदेहराड दन्ता उत्पाट्य तस्याभिरामकृष्णौ महाबलौ निजघ्नदुर्महा मात्रान् केसरिणो यथा द्वीपे कदे चान्ये महामात्रा इधस्ततः विदुद्रुवुर्यथामेकवर्षा काले गदे सदि एवं हत्वा द्वीपं गोपै शैषैस्तैः प्रेक्षणोत्सुकैः जयरा वै रामकृष्णौ श्रमवारिमदाङ्गितौ परिश्रमारुणमुखौ रङ्गम् विवश्यतुस्त्वरम् दन्तपाणि महावेगौ यथा श्यामनिलानलौ मल्लाश्च मल्लं च नरा नरेन्द्रम् श्रियस्मरम् गोपगणाव्रजेशम् पितासु दम् दण्डधरम् ह्यसन्तो मृतम् विबुधा विराजं तत्त्वं परं योगिवराश्च भोजादेवं ददा रङ्गगदम् बलेन पृथक् पृथक् भावनया ह्यपश्यन् सर्वे जनास्तम् परिपूर्णदेवं हदं द्वीपं वीक्ष्य च दौ महाबलौ कंसो मनस्वी भयमापचेदसि मञ्जस्थिताघर्षितमानसा चन्द्रं चकारो चन्द्रं चकोरा यिवदे सुखं ययुः कर्णजगर्णम् विधिनायनागरा यनागरा महोत्सुकास्ते ह्यवदन् परस्परम् ये तौ हि साक्षात् परमेश्वरौ परौ बभूवधुर्वै वसुदेवनन्दनौ अहोधिरम्यं व्रजमण्डलम् वरं यत्रैष साक्षाद्विचचार माधवः कृत्वा हि यद्दर्शनमद्य दुर्लभम् वयम् कृतार्थास्तु भावेम सर्वतः श्रीनारद उवाच वदत्सु पौरलोकेषु न दत्तूर्येषु मैथिलचाणूरस्तावुपव्रज रामकृष्णा उवाचणूर उवाच हे राम हे कृष्णयुवा महाबलौ रत्नपुरो वै गुरुदं मृदं बलाद प्रकर्षिते राजनि चेद्यदुत्तमे किं किं न भद्रं भवतीह वश्चनः श्रीभगवानुवाच पुरैव भद्रं नृपदे प्रसादतो बालाभयं तुल्यबलैश्च बालकैः भूयान्मृदो नो बलवान् यथोचिदमधर्मयुद्धं किल मा भवेदिह चाणूर उवाच भवान्न बालो न किशोरो बल च साक्षात् सहस्रमत्ते भवलम् तथा नो द्वीपो भवद्भ्याम् निहतसलीलम् श्रीनारद उवाच एवम् तस्य वच श्रुत्वा भगवान् वृजिनार्दनः चाणूरेणाभियुयूधे मुष्टिकेन बलो बलिम् नोदनं च भुजदण्डयोः चक्रदुपश्यताम् नृणाम् गजाविव जिगीषया अस्ताभ्यां वपुरुद्धाभ्य चाणूरस्य हरिस्वयम् आतो ल यद्देहभारं पुण्यभारं यथा विधिः चाणूरस्थं हरिं देवं करणैकेन लीलया उज्जहारमहावीरो भूगण्डं नागराडिव ग्रीवायां किल चाणूरं भुज वैगेन माधवः कट्यां चोद्धृत्य सखसा पादयामास भूदले हस्तैश्च जानुभिपादैर् भुजोरोऽङ्गुलिमुष्टिभिः जघ्नतु कृष्णजाणूरौ तथैव बलमुष्टिकौ श्रमवारीयुधे दृष्ट्वा श्रीमुखे रामकृष्णयोः सानो कम्पास्तदा प्राहुर्गवाक्षस्था नृपस्त्रियाः स्त्रिय उचुः अहो अधर्मसुमहत्सभायां जादपुरोराजनि वर्धमाने क्व वज्रतुल्याङ्गवृतौ हि मल्लौ पुष्पतुल्यौ बदरामकृष्णौ अहो ह्यभाग्यं हि पुरौकसाम्नो युद्धे तयोर्दर्शनमद्य जातम् अहोदिधन्यम् बदभूरिभाग्यम् वनौकसाम्रासरसेन जातम् अहोस्तिदे राजनि दुष्टचित्ते न, न कोऽपि वक्तुं क्षम एव सख्यः तस्माद्धिन्नः पुण्यबलेन च तौ त्वरमृधे वै जयदा मरीन्स्वान् इति श्रीकर्गसंहितायां मधुराखण्डे श्रीनारदबहुलाश्वसंवादे कुवलया वधो नाम सप्तमोऽध्यायः ओम्